शन्नो वातः पवताम् मातरिश्व शन्नस्तपतु सूर्यः अहादिशम्भवन्तु नः श गुरात्रिः प्रतिधीयता शमुषा नोऽव्युचतुषमादित्यबुदेतुनः शिवा नः सन्तमा भव सुमृडीका सरस्वती मातेव्योमसन्दृशी इडायैवास्त्वसि वास्तु मद्वास्तु मन्तो भूयास्म मा वास्तोऽश्चित्स्मह्य वास्तु स्वभूयाद्योऽस्मान्द्वेष्ट्यम् च वयम् विष्मः प्रतिष्ठासि प्रतिष्ठावन्तो भूयास्म माप्रतिष्ठायाश्चित्स्मह्यप्रतिष्ठः स भूयाद्योऽस्मान्वेष्टियम् च भयम् विश्वः आवात बाहि भेषजम् विवात बाहि यद्रवः त्वदम् हि विश्वभेषजो देवानान्दोत ईयसे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 ततो नो मह आवहवात आवातु आवा भेषजम् शम्भोर्मयोभोर्नो हृदे प्रण आयोगुंषितारिषत् इन्द्रस्य गृहोऽसितन्त्वा प्रपद्ये स गुस्साश्वः सह यन्मे अस्ति ः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवः सु वः प्रपद्ये वायुम् प्रपद्येनार्तान् देवताम् प्रपद्ये श्मानमाखनम् प्रपद्ये प्रजापतेर्ब्रह्मकोशम् ब्रह्म प्रपद्य ॐ प्रपद्ये अन्तरिक्षम् मबुर्वन्तरम् बृहदग्नयः पर्वताश्च यया वात स्वस्त्या स्वस्ति प्राणापानौ मृत्योर्मापातम् प्राणापानौ मामाहाशिष्टम् मयि मेधाम् मयि प्रजाम् मयि यज्ञिस्तेजो दधातु मयि मेधाम् मयि प्रजाम् मयीन्द्र इन्द्रियन्द्रधातु मयि मेधाम् मयि प्रजाम् मयि सूर्योऽभ्याजोदधातु द्युभिरक्तुभिः परिपातमस्मानरिष्टेभिरश्विनासौ भगेभिः तन्नो मित्रो वर्णो मदि सिंधु पृथिवी उत द्यौ कया न आवधे सदा वृध कया सचिष्ठया वृता कस्वा सत्यो मदा मगुम पिष्ठो मत्सदंधस दृढ़ाचिदारुजेबसू अभीषु न सखी नाम पिताजा शतम भवाोति मय सुपर्ना उपसेदुरीद्रं प्रिये धारो नाधमा अपद्वा चुर्म बुद्ध्यस्माधय बद्धा शन्नो देवीरभिष्टय आपो भवन्तु पीतये ए संयोरभिस्रवन्तु नः ईशाना वार्याणाङ् क्षयन्तीश्चर्षणीना अपोयाचा मिभेषजम् सुमित्रा न आपपोषधयः सन्तु दुर्मित्रास्तस्मै भूयासूर्योऽस्मान्द्वेष्टियम् च वयम् विष्मः आपोहिष्ठामयोभुवस्ता न ऊर्जेदधातना महेरणायचक्षसे यो वः शिवतमोरसस्तस्य भाजयते हनः उशतीरिव मातरः तस्मा अरङ्गमामवो यस्य क्षया यजिन्वथा आपो जनयथा च नः पृथिवी शान्ता साग्निना शान्ता सा मे शान्ता शुचगुम् शमयतु यौ शान्ता सा गित्ते न शान्ता सा मे पृथिवी शान्तिरन्तरिक्षगुं शान्तिर्द्यौ शान्तिर्दिशान्तिर्वान्तर्दिशान्तिरज्ञिः शान्तिर्वायुः शान्तिरादित्यश्यश्चन्द्रपाः शान्तिर्नक्षत्राणिशान्तिरापः शान्ति तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्गौ शान्तिरजा शान्ति तिरश्वः न्तिर्ब्राह्मणः शान्तिः शान्तिरेव शान्तिः शान्तिर्मे अस्तु शान्तिः तया हदुम् शान्त्या सर्वशान्त्या मह्यन्ति पदे चतुष्पदे च शान्तिम् करोमि शान्तिर्मे अस्तु शान्तिः े श्री्री धृति तपो मेधा प्रति श्रद्धा सत्यंधर्मचता मोत्तिषंत मनोत्तिषंत मेक्रीति तपो मेधा प्रतिष्ठा श्रा सत्यैता महाशिशु उदायुषा स्वायुषो दोषधीनागुम् रसेनोत्पर्जन्यस्य सुष्मेणोदस्थममृतागुम् अनु तच्छक्षुर्देवहितम् पुरस्ता अच्छुक्रमुच्चरते पश्येम शरदः य उदगाभ्रजम शरीर से मध्यात्सृषभो लोहिताक्ष सूर्योप्चिमन साना तो ब्रह्मणश्चोतन्यसि ब्रह्मण आनीस्थो ब्रह्मण आवपनमसि धारितेऽयम् पृथिवी ब्रह्मणामहीधारितमेन महदन्तरिक्षम् दिवन्दाधार पृथिवीगुंसदेवान्यदहम् वेद तदहम् धारयाणि मामद्वेदोऽधिविस्रसत् मेधामनीषेमाविशतागुम् समीचीभूतस्य भव्यस्यावरुध्यै सर्वमायुरयाणि सर्वमायुरयाणि अभिर्गेर्भिर्यधतो न कूनमाप्यायय हरिवो वर्धमानः यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो ब्रह्मप्रभादिष्मतन्नो माहासीत् ॐ शान्तिः शान्तिः शान्तिः हरिः ओ